आकाशवाणी प्रवाचिका सुषमा कुमारी श्रिका प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् प्रशासनेन बैंकिय लेखागार लेखागारोद्घाटनं सामाजिक सुरक्षा बीमा योजनानां लाभम् अवाप्त् लघ् व्यवसायिनां हितेष् विशिष्टम विशिष्टं ध्यानं राष्ट्रपतिना राष्ट्रपति राष्ट्रपतिना रामनाथकोविन्देनोक्तं यत् प्रशासनं सूक्ष्म लघ् मध्यम उद्यमानां कृते विशिष्टतया कार्यं कार्यमाचरति झारखण्डे गढवा जनपदे नक्सलीभि विहिते सुरंग विस्फोटे सप्त आरक्षि भटा निहता सेनाप्रमुख विपिनरावतेन कश्मीरप्रकरणे संयुक्तराष्ट्र मानवाधिकार विवरणं निराकृतं प्रोक्तं च यत् भारतीय सेना मानवाधिकाराणां मानदण्डान्सारेण एव कार्यमाचरति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् सामाजिक सुरक्षा योजनाभि जनसामान्यानां जीवने अनिश्चितता निवारणे साहाय्यम् अवाप्ति दृश्य श्रव्य छायांकन माध्यमेन प्रशासनस्य सामाजिक सुरक्षा सम्बद्ध योजना लाभार्थिभि समं सम्भाषणे श्रीमोदिनोक्तं यत् प्रशासनं सामाजिक सुरक्षायाः त्रिशु महत्वपूर्ण प्रकरणेष् विशिष्ट ध्यानम् अवददाति तेन भणितं यत् प्रधानमन्त्रि सुरक्षा बीमा योजना प्रधानमन्त्रि जीवन ज्योति बीमा योजना अटल पेंशन योजनाभि त्रिष् वर्षेष् विंशतिकोट्यधिकजना लाभान्विता जाता सन्ति तणितं यत् प्रशासनं निर्धनभ्य संवदनशीलं वर्तता तां सशक्तिकरणाय च प्रयासरतं विद्यत तणितं यत् चतुर्दशोत्तर द्विसहस्रतम वर्ष बैंकष् दविपंचाशत्तमा बैंकीय लखागारा अभवन् परं अध्ना विवर्ध्य अशीति प्रतिशन्मिता संजाता सन्ति ए महिलानां बैंकिय लेखागाराणां संख्या अपि एधितास्ति राष्ट्रपति राष्ट्रपति रामनाथ कोविन्द प्रोक्तवान यत् प्रशासनं सूक्ष्म लघ् मध्यम उद्योगिभ्य अधिकं ऋण सहायता धनक्सिर शैथिल्ये नवाचारेष् च विशिष्टं ध्यानम् अवददाति संयुक्तराष्ट्र सूक्ष्म लघ् मध्यम दिवसावसरे नवदिल्ल्यां उद्यम औद्घाटनिके सत्रे तेन भणितं यत् नूतन संहितायां एते उद्योगा विशिष्टं स्थानम् अधिगतवन्त ग्रामीण भारते वृत्यवसरा उपपादयित् प्राशासनिक का महत्वपूर्ण कार्यक्रम मिशन सौर चरखा इत्यपि प्रारब्ध एकम् एमएसएम ई इति सम्पर्क पटलमपि प्रारब्धमस्ति झारखण्ड झारखण्डे नक्सलिभि विहिते आक्रमणे सप्त आरक्षिण हतात्मभूता नक्सलिभि गडवा जनपदे विस्फोटक सुरंगे विस्फोटः विस्फोट कृत उपमहानिरीक्षकेण विप्ल श्क्लावर्येण प्रोक्तं यत् जनपदस्य बिंजो क्षत्र केचन माओवादिनां सूचना अधिगतास्ति उच्चतम न्यायालयेनोक्तं यत् द्वि स्पेक्ट्रम सम्बद्ध प्रकरणानि संवेदनशीलानि वर्तन्ते प्रकरणस्यास्य अन्वीक्षणरतानां अधिकारिणां प्रतिरूपमपि स्पष्ट भवितव्यमस्ति शीर्षन्यायालयेन एएसएल मैक्सिस प्रकरणान्वीक्षणरतं प्रवर्तन निदेशालयस्य अधिकारिणं विरुध्य श्रवणकाले एषा व्यवस्था प्रसारितास्ति केन्द्रपक्षत अतिरिक्तेन महाधिवक्त्रा विक्रमजीत बैनर्जी वर्येण न्यायालय सूचित यत् प्रशासनं आयतोधिक सम्पत्ति सन्धारण अधिकारिणाम् अन्वीक्षणं कर्त् समीहते स्माखन सेना प्रमुखेण विपिन रावतेन कश्मीर प्रकरण संयुक्त राष्ट्र मानवाधिकार विवरणं निराकृतं प्रोक्तं च यत् भारतीय सि मानवाधिकारिणां मानदण्डान्सारेण कार्यमाचरति नवदिल्ल्यां साईबर प्रविधि सम्मोक्तं यत् कश्मीर राज्य सिया कार्य पक्षपातरहितं पारदर्शि च विद्यत साइबर युद्ध प्रणाल्या विषये प्रोक्तं यत् चीन दर्ष प्रविधि क्षग्रगण्यो जात अस्माभि अपि क्षत्रिन् क्षमतां विवर्धितव्या भारतदेशेन कथितं यत् अफगानिस्ताने आतंकवाद समस्या स्थानीया नास्ति तत्र विहितानि आक्रमणानि प्रतिवेशि देशै विधीयन्ते